जगज्जनिस्तेर्वलयालयाभ्याम् अगण्यपुण्योदयभाविताभ्याम् त्रयीशिरो जातनिवेदिताभ्याम् नमो नमः श्रीगुरुपादुकाभ्या पद्मस्तोमविकर्तनाभ्याम् विशिष्टसम्पत्तिविवर्धनाभ्याम् नमज्जनाशेषविशेषताभ्याम् नमो नमः श्रीगुरुपादुकाभ्याम् समस्त दुस्तर्ग कलङ्कपङ्का प्रणोदन प्रौढजलाशयाभ्याम् निराश्रयाभ्याम् निखिलाश्रयाभ्याम् नमो नमः श्रीगुरुपादुकाभ्याम् करार्तितानाम् छायामयेभ्या अतिशीतलाभ्या आपन्न संरक्षण नमो नमः श्रीगुरुपादुकाभ्याम् यतो गिरो अप्राप्य धिया समस्ताः ह्रिया निवृत्ताः सममेव नित्याः ताभ्यामदेशाच्युतभाविताभ्याम् नमो नमः श्रीगुरुपादुकाभ्याम् दुका पञ्चकमादरेण पठन्ति नित्यम् प्रयता प्रभाते तेषाम् गृहे नित्यनिवासशील श्रीदेशिकेन्द्रस्य कटाक्षलक्ष्मी